ततो विराटम् प्रथमम् युधिष्ठिरो राजा सभायामुपविष्टमाव्रजत् वैडूर्य रूपान् प्रतिमुच्य काञ्चना नक्षांस कक्षे परिदृक्ष्य वाससा नराधिपो महानुभावो नर राज सत्कृतो बलेन रूपेण न रष पूर्वरूपेण यथामरस्तथा महाभ्रजालीरिव संवृतो रविर्यथा न लोभस्म वृतश्च वीर्यवान् तमापतन्तम् प्रसमीक्ष पण्डवम् समागतं पूर्ण शशि प्रभाननम् महानुभावम् न चिरेण दृष्टवान् मन्त्रिद्विजान् सूत मुखान्विषस्तथा ये चापि केचित् परितः समासते पप्रत्यपोऽयम् प्रथमम् समवेक्षते सभा न तु द्विजोऽयम् भविता नरोत्तमः इति मे मनोगतम् न चास्य भ्राजति चायन्द्रवत् शरीरलिङ्गैरुपसूचितो ह्ययम् मूर्धाभिषिक्त इति मे मनोगतम् समीपमायाति चमेकतो वितर्कयन्तम् तु नरर्षभस्थधा युदिष्टिराभेत विराटमब्रवीत् सम्राट् विजानात्यह जीवनार्थिनम् विनष्ट सर्वस्व उपागतम् द्विजम् इहा अहमिच्छामि तवा घनादिके वस्तुम् यथा कामचरस्तता विभो